श्रीहर्ये नमः अथ षोडशोऽध्यायः श्रीशुक उवाच पि ोपशितो रामस्ततेति कुरुनन्दन संवत्सरं तीर्थयात्रां चरित्वा श्रममाव्रजत् कदाचित्र रेणुका याता पद्ममालिनं गन्धर्वराजं क्रीडन्तम् अप्सरोपि अपश्यतां विलोकयन्ती क्रीडन्तम् उदकार्तं नदीं गता ओमवेलां न किञ्चिच्चित्ररतः स्पृहान् कालात्ययं तं विलोक्य मुनीशापविशङ्किता आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः व्यभिचारं मुनिर्ज्ञात्वा पत्न्या प्रकुपितो ब्रवेत् न पुत्रका पुत्रक पापमित्युक्तास्ते न चक्रिरे रामः सञ्ज्योतितः पित्रा भ्रातॄन्मात्रा सखावदेत् प्रभावज्ञो मुने प्रभावज्ञो मुने सम्यक् समादेस्तपसश्च सहा वरणेश्चन्दयामासः प्रीतः वव्रे कथानां रामोऽपि जीवितं सस्मृतिं वदे उत्तस्तुस्ते कुशलिनो निद्रा पाय इवाञ्जसां पितुर्विद्वांस्तपो वीर्यं रामश्चक्रे सुहृदत्वधं ये अर्जुनस्य सुता राजन् स्मरन्तः ये गता श्रमतो गते वैरंसिषादै शवो दृष्ट्वाज्ञघार आसीनम् आवेशित मुनिं भगवत्युत्तमश्लोके जग्मुस्ते पापनिश्चयाः याश्च मनाकृपणया राममात्रादि दारुणाः प्रसह्य क्षत्रबन्धवः रेणुका दुःखशोकार्ता निघ्नन्ति आत्मानमात्मना राम विशुक्रो हि तातेति विशुक्रोशवुच्चकै सति तदुपसृत्य धूरस्तो हारामेन्द्रार्तवत्स्वनं त्वरयाश्रमम् आसाद्य तत्कृषे पितरं त्यक्त्वा स्मान् स्वर्गतो भवान् विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयं प्रगृह्य परशुं रामक्षत्रान्ताय मनोदते गत्वा मा किष्मतीं भ्र मग्नविगतश्रियं तेषां सशीषबीराजन्मध्ये चक्रे महागिरिं तत्रग्धेन नदीं घोरां ब्रह्मण्यभयावकां हेतुं पितृवधं क्षत्रे प्त कृत्वत् पृथ्वीं कृत्वा निक्षत्रियां प्रभुः समन्तपञ्चके चक्रे शोणिधोतान् ह्रदानृप पितुः कायेन सन्धाय बर्हिषे सर्वदेवमयं देवम् आत्मानं मजयन्म कैहे दिशं गोत्रे ब्रह्मणे दक्षिणां दिशम् अत्वर्यवे प्रतीशीं वै उद्घात्रे उत्तर श्यपापश मध्यतः आर्यावर्तम्बुभद्रष्ट्रे सतस्त्येभ्यस्ततः परं ततश्चापभ्रुतस्नानविधूताशेषगिल्पिशः सरस्वत्यां ब्रह्म नद्यां रेजे व्यभ्र इवां सुमान् स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणं ऋषीणां मण्डले शोभोत्सप्तमो रामपूजितः जामदग्न्योऽपि भगवान् रामः कमललोचनः आगामिन्यन्तरे राजन्वर्तयिष्यति वै बृहद् आस्तेऽध्यापि महद्राद्रौ न्यस्तदण्डप्रशान्तदीये उभगीयमानचरितसिद्धगन्धर्वचारणैः एवं ब्रुगुषु विस्वात्मा भगवान् करीरीश्वरः अवतीर्य परम्भरं भुवो खन् बगुषो धातरे भूत्मः ते जमिद्धैव पावकः तपसाक्षात्रं वुत्सृजयो ले भे ब्रह्म वर्चसं विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप मध्यमस्तु मधुश्चन्द मधुश्चन्दस पुत्रं कृत्वा सुनः देवरातं च भार्गवम् अजीगर्तं सुता नाख ज्येष्ठ एष हरिश्चन्द्रमहे विक्रीतः स्तुत्वा देवान् प्रजे सादेन् मुमुचे पाशबन्धनात् यो रातो देवयजने देवैर्घातिषु तापसखा देवरात इति ज्ञातः शुनशेपसभार्गवखा ये मधुश्चन्दसो ज्येष्ठा कुशलं मे अशपत्तान्मुनिक्रुद्धो म्ले च भवत दुर्जनाः सहोवाचमतुश्चन्धा यन्नो भवान् सञ्जानीते तस्मिन् स्तिष्ठामहे वयं ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्महे विश्वामित्रसुताना कभीरवन्तो भविष्यथ ये ो वीरवन्तम् अकर्तमः एष वुशिका वीरो देवरातस्तमन्वित अन्येषाष्टकहारीतजयक्रतुमधातयः एवं कौशिकगोत्रं तु विश्वामित्रे पृथग्विधं प्रवरान्तरमापन्नं तद्विशैवं प्रकल्पितम् इति श्रीमद्भागवते महापुराणे नवमस्कन्ते षोडशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमगराजकी जय